दृष्ट्वा च विश्वकर्माणम् व्यादिदेश पितामहः सृज्यताम् प्रार्थनीयैका प्रमदेति महातपाः पितामहम् नमस्कृत्य तद्वाक्यमभिनन्द्य च निर्ममे योषितम् दिव्याम् चिन्तयित्वा पुनः पुनः त्रिषु लोकेषु यत्किञ्चिद्भूतम् स्थावरजङ्गमम् समानयद्दर्शनीयम् तत्तदत्र कोटिशश्चैव रत्नानि तस्या गात्रे न्यवेशयत् तां रत्नसङ्घातमयीमसृजद्देवरूपिणीम् सा प्रयत्नेन निर्मिता विश्वकर्मणा त्रिषु लोकेषु नारीणाम् रूपेणाप्रतिमाभवत् न तस्याः सूक्ष्ममप्यस्ति यद्गात्रे रूपसम्पदा सा विग्रहवती वा श्रीः कामरूपा वपुष्मती जहार सर्वभूतानां चक्षुंषि च मनांसि तिलं तिलं समानीया रत्नानां यद्विनिर्मिता तिलोत्तमेति तत्तस्य नाम ब्रह्माणम् सा नमस्कृत्य प्राञ्जलिर्वाक्यमब्रवीत् किम् कार्यम् मयि भूतेश येनास्म्यदेह निर्मिता पितामह उवाच गच्छ सुन्दोपसुन्दाभ्यामसुराभ्याम् तिलोत्तमे प्रार्थनीयेन रूपेण कुरुभद्रे प्रलोभनम् त्वत्कृते दर्शना देव रूपसम्पत्कृतेन वै विरोधस्याद्यथा ताभ्याम् अन्योन्येन तथा कुरु नारद उवाच सा तथेति प्रतिज्ञाय तत्र विबुधानाम् प्रदक्षिणम्